जलक्ष्मीं चिन्तयाम्यहं वाणी सचित भव्य पादुकां श्री गजलक्ष्मीं वाणी सचित पादुकां श्रीगजलक्ष्मीं चिन्तयाम्यहं वाणी सचित पादुकां श्री पद्मनाभर मन्दिरं पद्ममुखी पद्मा सुरेश्व पद्मिनी महापद्मवनगदा गृह दोष हरा अनुग्रह कर सुखदा निरूपलदा गृह दोष हरा अनुग्रह कर श्री भूल